ॐ परमात्मने नमः श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवते महापुराणे सप्तमस्कन्धे नवमोऽध्यायः वासवाच कदाचिदश्च का श्राद्धे विकक्षिम् पृथिवीपतिः आज्ञापयत् असम्मोढ मासंरम् मीठ्यमधुना वनेता दुक्त सुतु जगा जघान बाण वराहंसुक परेश बुभुषि विस्मृता चार घात शं चादृशोवने शेषम् निवेदयामास पित्रे मासमनुत्तमम् प्रोक्षणाय समानेतम् मासम् दृष्ट्वा गुरुस्तर अनर्हमिति ज्ञात्वा च कोपः मुनिसत्तमः भुक्तशेषम् तु न श्राद्धे प्रोक्षणीयमिति राज्ञे निवेदयामास वसिष्ठपाकदूषणम् पुत्रस्य कर्म ज्ञात्वा गोपते गुरुणोदितम् गुरु शुकोपविधिरोपातम् देशान् निस्सारयत्ततः शशाद इति विख्यातो नाम्ना धातो नृपात्मजः गतो वने शशादस्तु पितृकोपादसम्भ्रमः वन्येन वर्तयन् कालम् धर्मतत्परः पितर्यु परते राजम् प्राप्तं तेन महात्मना शशादश्चकरोद्राजम् अयोध्यायाः पति स्वयं चकारे पूर्णा चकारोतटे शशादस्य भवत्पुरः ककुत्स्थ इति विश्रुतः तस्यैव नाम भेदाद्वै इन्द्रवाहे पुरञ्जयः जन्मे जवाच नाम भेदः कथं दातो राजपुत्रस्य च नघे कारणम् ब्रूहि मे सर्वम् कर्मणायेन च भवत् व्यासुवाच शशादे स्वर्गते राजा ककुत्थ इति चाभवत् राज्यं चकारधर्मण्यः पितृपैतामहं बलात् एतस्मिन्नन्तरे देव तैत्यै सर्वे पराजितः जग्मो त्रिलोकाधिपतिम् विष्णुं चरणमव्ययम् तन्त्रोवाच महाविष्णु सदा देवान् सनातनः विष्णुवाच पास्निग्राहं महे पालम् प्रार्थयन्तु दशजम् स हनिष्यति वैदैत्यं सङ्ग्रामे सुरसत्तमः आगमिष्यति धर्मात्मा साहाय्यार्थं धनुर्धरः पराशक्ते प्रसादेन सामर्थ्यं तस्य चातुलम् हरे सुवचना सर्वे वा सवै अयोध्यायां ह राज शशायं पति तानागतां सुरान् राजा पूजया मास्तु धर्मतः पप्रच्छाय गमरे राजा प्रयोजनम् तन्द्रितः राजोवाच धन्योऽहं पावितः चास्मि जीवितं सफलं मम यदा गृहे देव ददृश्य दर्शनम् महत् ब्रुवन्तु कृत्यम् देवे स दुःसाध्यम् अपि मानव हि करिष्यामि महत्कार्यम् सर्वथा भवताम् महत् देवाऊचुः साहाय्यम् कुरु राजेन्द्र सखा भवे शचीपतेः सङ्ग्रामे जय दैतेन्द्रम् दुरयान्त्रिदशैरपि पराशक्ति प्रसादेन दुर्लभं नास्ति ते क्वचित् विष्णुना प्रेरिता चैवम् आगतास्तव सन्निधौ राजोवाच पाचने राहो भवाम्य देवानां सुरसत्तमः इन्द्रोमेवाहनं तत्र भवेद्य सुराधिपे सङ्ग्रामम् तु करिष्यामि दैत्ये देव कृते अधुना अरुहेन्द्रं गमिष्यामि सत्यम् वेतद्रवीम्यहम् सर्वचोर्वासवम् देवः कर्तव्यम् काबल्यम् कार्यमद्भुतम् पत्रम् भवनरेन्द्रस्य त्यक्त्वा लज्जां चेपते यजमान सदा चक्रः प्रेरितो हरिणा वृषम् बभोव वृषभस्तोर्णम् रुद्रत्येव परो महा संहारोरोह राजासौ सङ्ग्रामगमय गमनाय वै सिलककोदीयेनास्य ककुसस्तेन च भवत् इन्द्रोवाहकतो येन तेन ये नाम्नेन्द्रवाहकः पुरां जितम दू दैसा सेना भूच पुरंजय जीवा दैसा बहु धन तेजा प्रदत्त प प्रं रजसे सख्यम बभूव ककुत्थाख्या वंशज है, है ककुत्स्थय भुविराजानो बबू बहुत ककुस्थसापुत्र धर्म पत् महाबल अने पुत्री वीनों साक्षा परशक्ति पद विश्व रिस्थ विधेय पुटो पुत्रो, पुत्रो न चन्द्रस्तस्य सुतस्रे मां राजा भूंशकर स्मृतः तत्सुतो युवनाश्वस्तु तेजस्वी बलवत्तरः श्यावन्तो युवनाश्वस्य यज्ञे परमधार्मिकः शावन्ते निर्मिता तेन पुरीचक्रे पुरी, पुरी समासपुत्रोऽभूत् सावन्तस्य महात्मनः कुवलयाश्वस्य स्वभुव पृथिवीपतिः धनु धुन्धुर्नामाः चोदयस्य ते रासो पृथ्वीतले धुन्धुमारेति विख्यातम् नाम प्रापाति विश्रुतम् पुत्र तस्य दृढाश्वस्तु पालयामास मेदिनीम् दृढ़ाश्वस्त श्रीम हर कीर्तिकुंभस्तुतःप्रतो बभूव पृथ्वीपति बर्मणाश्रो निकुंभ से कृशाश्वस्त वैश्त प्रसन्नजीत कुशाश्व से बलवान्क्रम तुत्रो महावनाश्रुत यौवनाश्व सुत श्रीमान् मान्धाते महीपतिः अष्टोत्तरसहस्रं तु प्रसा प्रासादायेन निर्मिता भगवत्या सु मानरे मात्रगर्भे न उत्पन्नो जनकोदरे निस्सारित पुत्रे कुक्षिं भीत्वापितु पुनः न श्रुतं न च दृष्टं वा भवता तदुदाहृतम् असम्भाव्यम् महाभाग तस्य जन्म यथोदितं विस्तरेण वद स्वाद्य मान्धातु जन्म कारणम् राजोदरे यथोत्पन्नः पुत्रः सर्वाङ्गसुन्दरः सुवाच यौवनाशु भूत राजा परम धाक भार्ण सिंत बभूव नृपते नृप राजा चिंता प्राची प्राय चिंतियामस निश अपत यौवनाशु दुखितो वन ग ऋषीरामाश्रम्भे पुण्ये निर्विण स च पार्थिवः मुमोच दुःखितं श्वासं तापसानां च पैशतां दृष्ट्वा तु दुःखितं विप्र बभुवे च कृपालवः तन्मोचु ब्रह्मणाराजन् कर्मा चोचसि पार्थिवः ्रूही सत्यम् मनोगतम् प्रतिकारं करिष्यामो दुःखस्य तव सर्वथा यौनाश् उवाच राज्यं धनं सदश्वाच वर्तन्ते मुनयो मम भार्याणां च शुद्धं वर्तते विशदप्रभम् नाराशि तृशु लोकेषु कोऽप्यस्ति भगवान् मन्ता वर्तन्ते मन्त्रिण तथा एकं सन्तानजं दुःखं नान्यत् पश्यामि तापसः न पुत्रस्य गते नास्ति सर्गो नैव च नैव च तस्मात् शोचां विप्रेन्द्रः सन्तानार्थं भुषन्ततः वेदशास्त्रा स तत्त्वज्ञा पसा च कृतश्रमः इष्टिं सन्तानकामस्य युक्तां ज्ञात्वा दिशन्तु मे कुर्वन्तु मम कार्यं वै कृपा चेदशितापसावाच तच्छ्रुत्वा वचनं राज्ञ कृपया पूर्णमानसः आरयामासो व्यग्र तस्यमिन्द्रदेवताम् कलशः स्थापितः तत्र जलपूर्ण तु वात्रार्थं तस्य भूपतेः राजा सद्यज्ञसदनं प्रविष्टोनिषि विप्रां दृष्ट्वा शयानां तपो मन्त्र जलं स्वयं भाज्यार्थं संस्कृतं विप्रै मन्त्रितं विधिनोद्धृतम् पीतं राज्ञा दृढातेन तदज्ञानान् नृपोत्तम व्युदकं कलशन् दृष्ट्वा तदा विप्रविशङ्कितः तप्रच्छुतेनृभङ्गेन पीतम् जलमिति द्विजः राज्ञा पीतं विजित्वा ते ज्ञात्वा दैव बलं महत् एक्तिं गर्भं दधरे नृपति ततो मन्त्रे बलादथ ततः काले सुः कुक्षिम् भित्वास्य दक्षिणा पुत्रं निष्कासयामासु मन्त्रिणस्तस्य भूपतेः देवा मां कृपया तत्र न मम महीपतिः कन्धास्य च कुमारोऽयम् िणे च प्रशुर्भृशम् तदेन्द्रो देशि निम्रा मान्धातेवद वचः स्वभवद्बल राजा मान्धाता पृथिवी पतिः तद् तव वितर इति श्रीमद्देवी महापुराणे अष्टादशसहस्रहितायां सप्तमस्कन्धे मान्दास्तोत्पत्तेवर्णं नाम नो मोध्याय श्रीजगदम्बिकायार्पणमस्तु